हरि श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्डे त्रयोदश सर्गः राज्ञो विलाप कैके पति तस्य अनुनयो विनयश्च अतदर्हम् महाराजम् शयानम् अथ सोचितम् ययातिम् एव पुण्यते अनर्थरूपा सिद्धार्थ भयदर्शिनी पुनराकारयामासे तमेव वरमङ्गन तं कथ्यसे महाराज सत्यवादी दृढवर्त मम चेदम्बरं कस्मात् विधारयितुमिच्छसि एवम् उक्तसुखकेया राजा दशरथसराय प्रत्युवाच ततक्रुद्धो क्रुद्ध मुहूर्तम् विवलन्निव मूर्ते रामे पनम् मनुषपुङ्गवे कन्ता नार्ये मम सुखिने भवे स्वर्गेऽपि खलु रामस्य कुशलम् दैवते अहम् प्रत्यादेशादभीतम् धारिष्ये कैकय्या प्रियकामेन राम प्रव्राजितो वनम् यदि सत्यं प्रबिम्बेत तदा सत्यं अपुत्रेण मया पुत्रे श्रमेण महता महन् रामो लब्धो मा तेज स कथं त्यज्यते मया शूरश्च कृतविद्यश्च जितक्रोध क्षमा कथम् कमलपत्रा मया रामो विभासते कथम् इन्द्रे वरच्यामम् दीर्घबाहुबलम् अभिरामं अहं रामं, स्थापयिष्यामि दण्डकम् सुखानाम् उचितस्यैव दुःखै अनुचितस्य च दुःखम् नामानुपश्येयम् कथम् रामस्य धीमत, यदि दुःखम् न कृत्वा तु मम सङ्क्रमणम् भवेखार्हस्य रामस्य तथा सुखम् अवाप्नुयाम् दृशंसे पापसङ्कल्पे रामम् सत्य परक्रमं। किम् विप्रियेण कैकेयी प्रियं योजयसे मम अकीर्ति तुला लोके ध्रुवम् परि भविष्यति तथा विलयपतस्त परिभ्रमे सचेततः अस्तमभ्यगमसूर्यो रजने सूर्यो शास्त्रीया मा तदा तस्य चन्द्रमण्डलमण्डितः राज्ञो विलयपमानस्य न विभाय तत् शर्वरी सदैवोष्णं मिलिष्यस्य वृद्धो दश रथो नृप विरला पातव दुःखम् गगनसक्तलोचनः न प्रभातं त्वयच्छामि निशे नक्षत्रभूषिते क्रियताम् मे दया भद्रे मयायम् रचितोऽञ्जलिः अथवा गम्यताम् शीघ्रम् नाहमिच्छामि निर्घृणाम् नृशन्ताम् कैकेयीम् के द्रष्टुम् एवम् मुक्ता सो राजा कैकैम् संयताञ्जलिः प्रसादयामास पुनः कैकेयीम् राजधर्मभी साधुवृत्तस्य दीनस्य सद्गतस्य गतायुषः प्रसादक्रियताम् भद्रे देवीराज्ञो विशेषतः शून्येन कलुषु श्रोणी एदम् समुदाहृतम् कुरु साधु प्रसादम्बे बाले सहृदयायसि प्रसीदेवी रामोऽम्बे तद्दत्तं राज्यव्ययम् लभताम् असितापाङ्गे यश परम्बवाप्क्षसि मम रामस्य लोकस्य गुरूणां भरतस्य च प्रियमेतद्गुरुश्रोणी कुरु चारु मुखे चले विशुद्धभावस्य भावः तीनस्य ताम्रा शृकलस्य राज्य श्रुत्वा विचित्रम् करुणम् विलपम् वर्तृम् शन्ता न चकारवाक्यम् ततश्च राजा पुनरेव मूर्छितः प्रियामतुष्टाम् प्रतिकूलवासिणीम् समीक्ष्य पुत्रस्य विवासनम् प्रति चितो विसन्यो निपपात दुःखित इतीव राज्ञो व्यथितस्य स निशमघोरं चतुरो मनस्विनये विबोध्यमान प्रतिबोधनं तदा निवारय मा सराज्य नित्याशेषमन् रामायणे वाल्मीकि अधिकाव्ये अयोध्याकाण्डे त्रयोदश सर्ग श्रीसीतारामचन्द्रर्पणमस्तु